नापादुकासहस्रं पद्धति सवन् अभिषेकपद्धतिः अनुष्टुं पाहिनःपादुके यस्य विधास्यन्नभिषेचनम् आभिषेचनिकम्भाण्डं चक्रे रामः प्रदक्षिणं रथोद्धता राघवस्य चरणौ पदावनि प्रेक्षितुं त्वदभिषेकमीषतुः आभिषेचनिकभाण्डसन्निधौ यत्प्रदक्षिणगदिशनैर्ययौ उपजाति मूर्ताभिषिक्तैर्नियमेन वास्यौ विचिन्त्य नूनं रघुनाथपादौ रत्नासनस्थाम् रत्नासनस्था मणिपादुकेमुजभ्यषिंचत भ्रतुर्निगेप्यवर्धम चरित्यजंदम राजौ तौ नारतियाुभा भवदीजिगाय निवेश्य रङ्गेश्वरपादरक्षे भद्रात्सने सादरमभ्यषिञ्चद् वशी वसिष्ठो मनुवंशजानां महीक्षिदां वंशपुरोहितस्त्वाम् कृताभिषेका भवदीयथावत् रङ्गेशपादावनिरत्नपीठे गङ्गानिपादस्न पिदां सुमेरोरधित्यका भूमिमधश्चकार वसिष्ठमुख्यैर्विहिताभिषेकां राज्यासने रामनिवेशयोग्ये तुष्टावङ्गेश्वरपादरक्षे प्राचेतसस्त्वां प्रथमकवीनाम् इन्द्रवज्र रक्षोवधार्थं मणिपादरक्षे रामात्मनो रङ्गपदे प्रवासे पकाराद्भवदी विदेने। राजन्वदीं कोसलराजधानीम् उपजाति प्राप्ताभिषेखामणिपादक्षेप्रतापमुग्रं प्रतिपद्यमाना शशासपृथ्वीं भवती यथावत् साकेदसिंहासन सार्वभौमी दशाननादीन्मणिपादरक्षे जिगीर्षतो दाशरथेर्वियोगाद जादौ पतापा त्वयि सम्प्रयुक्तैस्तीर्थोदकैरुज्वसिता धरित्री वसन्ततिलकम् अध्याद मनुमुख क्रमशो नरेन्द्रैरारोप्य दे विभवीं तपनीयपीठमिषेकमनखमिपादेमोचिद तव वशं भरदो विदेने। स्नेहेन देवि भवतीं विषयेभिषिञ्चन् द्विसप्तसङ्ख्यभुवनोदरदीपरेखां जातं रघुद्वह दिवाकरविप्रयोगादण्डं समिश्रमहरद्भरतः प्रजानाम् हस्ता पदावनि हस्तापचेयपुरुषार्थफलप्रसूतेर्मूलं पदावनिमुकुन्दमहीरुहस्त्वं छायाविशेषमधिषद्यदसौ प्रजानामावर्जितैस्त्वयि शुभैरभिषेकतो यैः अह्नाय रामविरहात् परिखिन्नवृत्तेराश्वासनाय भवति मणिपादरक्षे तीर्थाभिषेकमपदिश्य वसुन्धरायाश्चक्रे तदा समुचितं शिशिरोपचारं मालिन्यमाश्रितवती मणिपादरक्षे पङ्गेन केकयसुधा कलहोद्धितेन शुद्धिं परामभिजगाम वसुन्धरेयम् त्वत्तः क्षणान्निपदितैरभिषेकतो यैः आवर्जितं मुनिगणेन जगद्विभूत्यैतोऽयं पदावनि तदा त्वयि मन्त्रभूतं मूलावसेकसलिलं निगमद्रुमाणां शाबोदकं च समभूत्क्षणदाचराणाम् विप्रोषिते रघुपदौ भवति यथार्हं मान्ये पदे स्थितिमती मनुवंशजानाम् आत्मन्यथर्वनिगुणैः प्रसिधैः प्रजानामश्रूण्यपास्यदभिषेकजलप्रवाहैः प्रायो विशोषितरसा पदि पदिविप्रयोगात्पर्याकुलीकृतसमुद्रपयोधरा गौः अम्ब त्वदीयमभिषेकजलं पिबन्ती धेनुर्बभूव जगदां धनधान्यदोग्ध्री वृत्ते यदिषेक बे पश्चातवां भरतेन नृध किरीद आकस्मकल शिहर्षा प्राप्त स्विषावपेमिपादुके ता वसतमालिका मनुवंशपुरोहितेन मन्त्रैरभिमन्त्र्य त्वयि पादुगे प्रयुक्तम् अभिषेकजलं क्षणेन राज्ञां शमयामास समुद्धितान् प्रदापान् पादपादुपहृदा रघुद्वहादालवालमिव पीठमाश्रिता अभ्यषेजि भवती तपोधनैः परिजातलतिकेव पादुके मालिनि अलकुभिरभिषेकव्यापृतैरम्बुभिस्ते दिनकरकुलदैन्यं पादुके क्षालयिष्यन् स खलु कमलयोने सूनुराधत्तमन्त्रेष्वधिगनियमयोगाम् शक्रिमाधर्वेशु दिनकुजी पृथ्वीपीनापधीम प्रावत्यांव अजनिषदस्ता पादुके तकपन सलिगामन गुंग भद्रा तव विधिवुपते सार्वभौमाभिषेके भरदसमयविद्भिः पादुके मन्त्रिमुख्यैः त्वदवधि निजकर्मस्थायिनीनां प्रजानां प्रथमयुगविशेषाप्रादुरासन्विजित्राः अवसिद रिपुशब्दा नन्वभूस्त्वं तदानीं रघुपतिपदरक्षे लब्ध चलिद लज्याषेका चलभुता मणिवल निनादेधुरान्म्रघोषाण सचितषेकम पादुगे विपतिता ध्वनिरनुगतमन्त्रसीददां कोसलानां शमयितुमलमासीत् सङ्गुलानार्तनादान् दिविषदनुविधेयं देविराज्याभिषेकं भरत इव यदि त्वं पादुके नानमंस्थाः कथमिव रघुवीरकल्पये दल्पयत्नस्त्रिचतुरशरपातैस्तादृशम् देव कार्यं कदित न पदपद्मस्पर्शसौख्यं त्यजन्ती व्रतमधुलमधास्त्वं रेखुपदि सावधानां रघुपतिपदरक्षे राक्षसैस्त्रासितानां रणकविमुक्तं येन राज्यं सुराणाम् शिखरिणि अथर्वोपत्यं विधिवदभिषेकं विदधतां वसिष्ठादीनामप्युपचितचमत्कारभरया त्वदा स्थान्या रङ्गक्षितिरमणपादावनितदा लिखी यस्यो गीति अभिषेचयदुसराम पदेन वा स्पृशदुपादुके भवतीम् अविशेषिदमहिमा त्वं क्व वा विशेषः क्षमा इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे अभिषेकपद्धतिसप्तमी ओ